नमस्कारः अस्माकम् अस्माकं योगनिष्ठजीवनमिति वर्गे भवतां सर्वेषां स्वागतं तर्हि योगः इति यद्वयं वदामः योगः इत्युक्ते अपूर्णतातः पूर्णतां प्रति गमनम् एव योगः मूविङ्ग् फ्रम् इम्पर्फेक्षन् टु पर्फेक्षन् योगजीवने एकं महत्त्वपूर्णं वस्तु अस्ति परिवर्तनस्य आलिङ्गनं परिवर्तनस्य आलिङ्गनार्थं सिद्धाः सिद्धाः यदा वयं स्मः तदानीम् अग्र अग्रगतिः भवति यदि सर्वदा संशयः एव भवति एतद् मम कृते समीचीनं वा न वा अहमस्य प्रयोगं करोमि वा न वा इति एतादृश एतादृशसंशयः यदा भवति तदानीम् अग्रगतिः कदापि न भवति परिवर्तनस्य आलिङ्गनं बहु बहु सम्यक् यदा अस्माकं सम्यक् वर्धनं भवेत् चेत् परिवर्तनस्य ग्रहणं कर्तव्यं यद यद् यद् यत्किमपि लभ्यते यत् अस्माकं कृते यत् पूर्वमस्ति अस्ति तस्य अपेक्षया यद् लभ्यते तद् श्रेष्ठं वर्तते चेत् तस्य आलिङ्गनं तस्य स्वीकारः स्यात् वस्तुतः वयं सर्वे अपि जन्मनः आरभ्य अपूर्णाः अपूर्णाः स्मः यतोहि त यस्मिन् वातावरणे अस्माकं जन्म भवति यत्र अस्माकं पालनं पोषणं भवति सर्वत्र सर्वत्र तत्र अपूर्णता तु भवति एव सर्वत्र पूर्णता एव अस्ति नास्ति पूर्णता अपूर्णता भवति अतः यत्किमपि वयः अस्माकं भवतु यत्किमपि वयः भवतु नाम तत्र विंशतिवर्षीयाः भवतु अथवा नवतिय नवतिः वर्षीयाः भवतु नाम परन्तु सर्वत्र यस्मिन् वातावरणे अस्माकं जन्म भवति तत्र तस्य प्रभावः तु भवति परन्तु तद् तत्र यत्किमपि अस्माभिः अधीतं तस्मिन् परिवारे अथवा यस्मिन् वातावरणे अस्माभिः यत्किमपि अधीतं सर्वत्र पूर्णता अस्ति नास्ति बहुत्र अपूर्णता अस्ति अतः यद् यदस्माभिः यद ज्ञायते तस्मिन् मार्गे अस्माकं चलनं बहु सुलभम् अस्ति यतोहि ज्ञातमार्गः अस्ति अतः सम्यक्तया वयं गन्तुं शक्नुमः परन्तु सः मार्गः समीचीनः वा न वा इति सर्वदा प्रश्नः भवति अपि च यदा अस्माकं वयः अधिकः भवति तदानीं वयं परिवर्तनस्य आलिङ्गनार्थं सिद्धाः न भवामः यदा अस्ति तदानीं किमपि नूतनं सः नू नूतनविषयस्य ज्ञानं प्राप्नोति तदानीं तः सः तस्य आलिङ्गनं कर्तुं सिद्धः भवति परन्तु यदा अस्माकं वयः अधिकः भवति तदानीं यत्किमपि नूतनं यद्यपि नूतनं श्रेष्ठम् तथापि तस्य आलिङ्गनार्थं वयं सिद्धाः न भवामः एतत्तु स्वाभाविकम् अस्ति परन्तु योगः इत्युक्ते किम् अपूर्णात् पूर्णतां पूर्णताया पूरनता, पूर्णतां प्रति गमनं एव योगः तादृशगमनेन किं लभ्यते इति चेत् वयम् एकः मानवः भवामः मानवधर्मस्य पालनं भवति अस्माकं मानवधर्मः अस्ति अनन्तस्य एषणा अनन्तेषणा एव अस्माकं मानवधर्मः अस्ति अनन्तः इत्युक्ते किम् अनन्तः इत्युक्ते पूर्णवस्तु यद् पूर्णवस्तु अस्ति तदेव अनन्तः अस्ति अनन्तस्य किमपि अपूर्णता न भवितुम् अर्हति यः अनन्तः अस्ति तस्य अपूर्णता नास्ति सः पूर्णवस्तु अस्ति तर्हि वयं सर्वे अपि तस्यां दिशि एव अस्माभिः तत्रैव गन्तव्यं तत्रैव गन्तव्यं तत्रैव अग्रगतिः भवेत् परन्तु प्रायेण जनाः अस्मिन् विषये न जानन्ति अस्माकं कृते अवसरः अस्ति ज्ञातुम् अग्रगतिः कथं भवितुमर्हति इति अस्माकम् अवसरः अस्ति यदा अवसरः प्राप्यते सः अवसरः एवमेव प्राप्तः इति नास्ति अत्र नथिङ्ग् इस् कोयन्सिडेन्स् वि गाट् दिस् चान्स् बिकास् आफ् भगवत्कृपा यत्किमपि अस्माकं जीवने अत्र केवलं कोयन्सिडेन्स् इति किमपि नास्ति यत्किमपि प्राप्यते तत्तु भगवत्कृपया एव प्राप्यते तर्हि अधिकांशानां जनानां नेत्राणि निमीलितानि सन्ति तेषाम् अन्तश्चक्षुः उद्घाटितः नास्ति परन्तु येषाम् अन्तःचक्षुः उद्घाटितः अस्ति ते अस्य आलिङ्गनार्थं सिद्धाः भवन्ति तर्हि वयं युगपर्यन्तं पशुजीवनस्य एव पालनं वयं कृतवन्तः अनुसरणं कृतवन्तः यतोहि सः मार्गः ज्ञातमार्गः अस्ति अतीवसुलभः मार्गः मार्गः अस्ति एषः एषः यः मार्गः अस्ति योगमार्गः सः अज्ञातमार्गः अस्ति सुलभः मार्गः नास्ति कठिनः मार्गः अस्ति तथापि अस्माभिः कठिनः इति वयं न त्यजामः कठिनमा कठिनस्य आलिङ्गनं वयं कुर्मः यतोहि जीवनं नाम किं सङ्घर्षः एव जीवनं यावत्पर्यन्तं वयं सङ्घर्षं न कुर्मः तदानीं तावत्पर्यन्तम् अग्रगतिः न भवति यत्किमपि यः कोऽपि विषयः भवतु नाम जीवने तत्र अग्रगतिः भवेत् चेत् सर्वदा सङ्घर्षः अपेक्षितः सङ्घर्षार्थं वयं सिद्धाः न स्मः अग्रगतिः कदापि न भवति आलस्यम् आलस्यं हि मनुष्याणां महान् रिपुः अस्ति आलस्यम् अतः अत्र योगनिष्ठजीवने आलस्यस्य स्थानमेव नास्ति आलस्यस्य स्थानं नास्ति अतः एत एतावता यद् यत्कि यत्किमपि अस्माभिः प्राप्तं तदेव श्रेष्ठम् इति अस्माभिः चिन्त्यते परन्तु अत्र योगनिष्ठ जीवनस्य पालनेन यद् लभ्यते तद् इतोपि श्रेष्ठः इतोपि श्रेष्ठः वर्तते इति अस्माभिः अवगन्तव्यं तत् केवलं Uh, श्रवणेन न भवति तत् केवलं यद् उच्यते वर्गे तत् श्रवणेन न भवति परन्तु अत्र जिज्ञासा भवेत् अस्मिन् मार्गे किम् अस्ति अहं ज्ञातुम् इच्छामि अत्र अहं साधनां करोमि चेत् किं लभ्यते मम अग्रगतिः लभ्यते वा किं भवति इति ज्ञातुं जिज्ञासा भवेत् यदा जिज्ञासा भवति तदानीमेव अग्रगतिः भवितुमर्हति यत् <ाए>। इत्युक्ते ओ मेडिटेशन् वा अहं इच्छामि मेडिटेशन् इति एव एतादृशभावना अस्ति चेत् कदापि अग्रगतिः न भवति सङ्घर्षार्थं अपि सङ्घर्षः अपेक्षितः हा अस्ति सुलभः मार्गः नास्ति परन्तु सङ्घर्षः अपेक्षितः यदा सङ्घर्षः क्रियते तदानीम् अग्रगतिः निश्चयः अस्ति अग्रग अग्रग, अग्रग गतेः विषये चिन्ता एव नास् न स्यात् यतोहि अग्रगतिः भवति मनः भवति इति वयं वयं स्वयं साक्षात्कारं कर्तुं शक्नुमः यदा तत् यः यः मार्गः अत्र योगनिष्ठ जीवनमिति यः मार्गः अस्ति सः आनन्दस्य मार्गः अस्ति परमात्मा तु परब्रह्म परमपुरुषः सच्चिदानन्दः अस्ति सच्चिदानन्दः तत् सच्चिदानन्दस्य अनुभवः अस्माकं भवितुमर्हति अस्मिन् मार्गे अत्र जीव जीवने यत्किमपि लौकिकवस्तु अस्ति तस्मात् अस्माकं केवलं क्षणिकसुखमेव लभ्यते इदानीं किमपि प्राप्यते सुखं लभ्यते तदनन्तरं किञ्चित् कालानन्तरं पुनः दुःखं पुनः किञ्चित् कालानन्तरं किमपि लभ्यते सुखं तर्हि तत् सुखं निरन्तरसुखं नास्ति निरन्तरसुखं कदा भवति निरन्तरसुखम् अनन्तस्य प्राप्तिद्वारा एव निरन्तरसुखं भवति परन्तु तस्मिन् मार्गे गमनार्थम् अस्माकम् इच्छा भवेत् तस्मिन् मार्गे गमनार्थम् अस्माकम् इच्छा भवेत् तस्मिन् मार्गे अस्माकं सम्यक्तया स्थापनं भवेत् प्रतिष्ठापनं भवेत् स्टडि इन् दट् मार्ग रैट् हाव् हाव् मेड् इट् इन्टु अर् हेबिट् तदर्थं किम् अपेक्षितम् इति चेत् पुनः तस्मिन् विषये वदामि यतोहि तत् अयं विषयः बहु मुख्यः अस्ति अत्र योगनेषु जीवने अग्रगति अग्रगतिम् अग्रगतिं प्राप्तुं किं किम् अपेक्षितम् इति चेत् अत्र चत्वारः विषयाः सन्ति एकः अस्ति सात्विकाहारः अनन्तरं सात्विक आहारे किं किं भवति इति अस्माभिः ज्ञातम् अनन्तरं उपवासः निर्जल उपवासः अनन्तरं तृतीयमस्ति आसनानि योगासनानि चतुर्थमस्ति व्यायामः चतुर्थः विषयः व्यायामः इत्येते चत्वारः विषयाः बहु सन्ति अस्माकं एते विषयाः यदा वयम् एतेषां विषयाणां पालनं कुर्मः तदानीं मनसः कृते एक् एक एकं सम्यक् वातावरणं निर्मितं भवति यदा मनसः कृते सम्यक् वातावरणं निर्मितं भवति तदानीम् आध्यात्मिकसाधना साधनायाः वर्धनं भवति अनन्तं प्रति मनसः केन्द्रीकरणं सुलभं नास्ति परन्तु अस्माकं मनसः कृते सम्यक् वातावरणं भवतु इति तदर्थं किं करणीयम् इति चेत् एते चत्वारः विषयाः बहु मुख्याः सन्ति मनसः प्रशिक्षणस्य आवश्यकता वर्तते विनि टु ट्रैन् द मैण्ड् शरीरस्य प्रशिक्षणस्य अपि आवश्यकता वर्तते विनि टु ट्रैन् डिसिप्लिन् द मैण्ड् एण्ड् द बाडि तदर्थम् एते चत्वारः विषयाः यद् मया उक्तम् अग्रगत्यर्थं बहु मुख्यमस्ति अपि च एते विषयाः एव अत्र मनसः सम्यक् प्रशिक्षणार्थं बहु आवश्यकाः अतः एव अस्य विषये वयं पुनः पुनः पुनः पुनः वदामः यतो हि अस्य बहु प्राधान्यता वर्तते इति अत्र उक्त्वा वयम् अग्रे अत्र अस्माकं करपत्रं प्रति गन्तुं शक्नुमः एतावत् अस्माभिः किं दृष्टम् इति चेत् प्र तत्र करपत्रस्य अस्माभिः उक्तं मनुष्यस्य अनन्तेषणा वर्तते मनुष्यः लौकिकवस्तुभ्यः निरन्तरं सुखं प्राप्तुं न शक्नोति अतः एव सः पुनः पुनः तस्य पृष्ठतः धावन्तः सः पुनः धावति तस्मिन् विषये अथवा धावन्तः अस्ति धावन् अस्ति परन्तु यदा यदा तस्य अन्तक्षुः उद्घाटितः भवति तदा सः जानाति सः अवगच्छति तत्तु भगवत्कृपया सः अवगच्छति यत् मम जीवनस्य लक्ष्यं भिन्नम् अस्ति मम जीवनस्य उद्देश्यमस्ति अनन्तेषणा अनंतस्य प्राप्तिः एव जीवनस्य लक्ष्यम् इति यदा तस्य अन्तचक्षुः उद्घाटितः भवति तदानीं सः अवगच्छति इति प्रथमभागे उक्तम् अनन्तरं करपत्रस्य द्वितीयभागे यदुक्तं तर्हि अस्माकं क कर्माणि कथं भवन्ति अस्माकं जीवने कर्माणि कथं भवन्ति तत्र इन्द्रियाणि कार्यं कुर्वन्ति इति जानीमः परन्तु इन्द्रियाणां तत्र इन्द्रियाणां पृष्ठतः दश सन्ति इन्द्रियाणां पृष्ठतः किम् अस्ति इति चेत् मनः अस्ति इति जानीमः मनसः संयोगः इन्द्रिय इन्द्रियैः सह संयोगः नास्ति चेत् तदानीं किमपि कार्यं न भवति तर्हि मनः मनः इत्यस्य त्रयः भागाः सन्ति तत्र महत्तत्त्वम् अहं अपि च सित्तं महत्तत्त्वम् इत्युक्ते अहम् अस्मि इति भावः अस्तित्वस्य भावः एव महत्तत्त्वम् अनन्तरम् अहं तत्त्वम् इति यद् कार्यम् आचुलि यद् वसुतः डूर् ऐ इति वयं वदामः यत् कार्यं करोति तदेव अहं तत्त्वं चित्तं द मूवी स्क्रीन् आफ़् द मैण्ड् यत् विषयस्य आकारं स्वीकु स्वीकरोति बाह्यजगतः विषयस्य आकारं स्वीकरोति तदर्थं किं भवति इति चेत् वस्तुभ्यः यदा पुस्तकं पुस्तकं पश्यामि तदानीं पुस्तकात् तन्मात्राणि रूपतन्मात्रं रूपतन्मात्रं पुस्तकात् तत्र चक्षुरिन्द्रियं स्वीकरोति तदानीं तत्र चक्षुरिन्द्रियतः चित्तं तन्मा रूपतन्मात्रं स्वीकरोति रूपतन्मात्रं स्वीकृत्य चित्तं पुस्तकवत् भवति पुस्तकस्य आकारं स्वीकरोति चित्तमेव तत्र डन् ऐ इति वयं वदामः तर्हि अहं तत्त्वं चित्ते यद् पुस्तकं दृश्यते तद् पश्यति तद् अहं तत्त्वस्य अनुभवः भवति मया पुस्तकं दृष्टम् इति अनुभवः भवति एतत् सर्वं कदा भवति यदा महत्तत्त्वं तस्य पृष्ठतः वर्तते महत्तत्त्वम् अहमस्मि इति भावं यावत्पर्यन्तं न ददाति तावत्पर्यन्तम् अहं तत्त्वम् अथवा चित्तं किमपि कर्तुं न शक्नोति इति अस्माभिः दृष्टं तर्हि महत्तत्त्वस्य पृष्टतः इत्युक्ते मनः एव अस्ति वा मनसः पृष्टतः इत्युक्ते मनः स्वतन्त्रतया कार्यं करोति वा इति चेत् न तथा नास्ति मनसः मनः तदा एव कार्यं कर्तुं शक्नोति यदा तस्य पृष्ठतः चेतना वर्तते पुरुषः वर्तते यावत्पर्यन्तं पुरुषः नास्ति जीवात्मा नास्ति तावत्पर्यन्तं मनः किमपि कर्तुं न शक्यते इति अस्माभिः दृष्टं अस्तु तर्हि तत्र अस्माभिः एतदपि दृष्टं यत् मनः च जीवात्मा द्वयमपि पृथक् पृथक् पृथक् पृथक् स्तः पृथक् तर्हि यद्यपि ते पृथक् सत्ते तथापि तयोः एक सम्बन्धः वर्तते गाढरीत्या सम्बन्धः वर्तते महत्तत्त्वे अहम् अस्मि इति भावः तावत्पर्यन्तं न भवति यावत्पर्यन्तम् अहम् इति अस्ति अहम् अहं नास्ति चेत् अहम् अस्मि इति भावः अपि कदापि न भवति इत्युक्ते रामः गच्छति इति वयं वदामः चेत् तर्हि यावत्पर्यन्तं रामः नास्ति तावत्पर्यन्तं गमनं नास्ति खलु एवमेव अस्मि अस्तित्वम् अस्मि इति भावः कदा भवति यदा रामः अस्ति तदानीमेव अस्ति रामः अस्ति इति वदामः चेत् अस्तित्व अस्तित्वस्य भावः कदा भवति यदा रामः अस्ति एवम् अत्र अहम् अस्मि इति भावः अस्ति महत्तत्त्वस्य विषयः तर्हि अस्तित्वं कदा भवति यदा अहम् इति एक एकः अहम् इति एकं वस्तु अस्ति तदानीमेव तत्र अहम् अस्मि इति भावः भवितुम् अर्हति क्रिया कदा भवितुम् अर्हति यदा तत्र तत्र तस्य पृष्ठतः अन्यत् किमपि भवेत् खलु अत्र अस्य अत्र अहम् अस्मि इति भावस्य आधारः कः इति चेत् आधारः अस्ति जीवात्मा जीवात्मा नास्ति चेत् किमपि तत्र मनः किमपि कर्तुं न शक्नुमः अतः वयं ज्ञातुं शक्नुमः जीवात्मा इति पृथक् सत्ता वर्तते मनः इति पृथक् पृथक् सत्ता वर्तते इति वयम् अवगन्तुं शक्नुमः अपि च जीवात्मनः एव भिन्नभिन्नकार्यात्मकरूपाणि सन्ति म मनसः भागाः इट् इस् ओन्लि अ माडिफैड् फ़ार्म् आफ़् द कान्शियस्नेस् द मैण्ड् इस् नथिङ्ग् बट् अ माडिफैड् फ़ार्म् आफ़् दि कान्शियस्नेस् सो अतः ते पृथक् पृथक् सत्ते परन्तु द्वयोः अपि गाढरीत्या सम्बन्धः वर्तते अपि च अस्माभिः यत् तत्र जीवात्मा कदा मनः भवति इति चेत् यदा तत्र प्रकृतेः प्रभावः भवति जीवात्मनः उपरि तदा एव तत्र पुरुषस्य उपरि प्रकृतेः प्रभावः यदा भवति तदानीम् एव अत्र मनः मनः मनः निर्मितं भवति इति अत्र विषयः अस्ति तर्हि किञ्चित् ओके तस्य विषये इदानीम् एतावता न पठितं तद् इदानीम् अग्रे पठामः तत्र अस्माभिः यत् जीवात्मनः उपरि प्रकृतेः प्रभावः यदा भवति तदानीमेव तत्र मनसः मनः अभिव्यक्तः भवति अभिव्यक्तं भवति तत्र मनसः भागः अभिव्यक्तं भवति तर्हि प्रकृतिः का इति इदानीम् अस्माभिः द्रष्टव्यं तत्र सरिताभ्नि पठति वा प्रकृतिः का एकप्रश्न <laughs> आत्मा इति प्रकृतिद्वौ भूनौ वा इति आत्मा एव महत्तत्व अस्मिन् प्रण परिमरति परि परि परिमनति परिणमति महत्तत्वम् अहं तत्त्वे परिणमति अहं तत्त्वचित्तं परिणमति इति अस्ति तदेव इदानीं पश्यामः एतद् दृष्ट्वा एतत् दृष्ट्वा प्रश्नस्य उत्तरं न लब्धं चेत् तदा वदामि अस्तु करिता भगिनी स्क्रीन् नेर् न कृतं वा क्षम्यताम् मया शुद्धितं स्क्रीन् शेर् कृतम् इति अस्तु क्षम्यताम् नाम का इति व्याख्यानीयम् या सत्ता प्राकृतिकघटनानां नियन्त्रणं करोति सा सत्ता प्रकृतिः प्रकृतिः न वा स्वभावः न वा गुणः अस्ति उदाहरणत्वेन दहनशक्तिः अग्नेः स्वभावः इत्युच्यते यथा काचित् सत्ता आत्मानं गुणान्वितं करोति तथा काचित् सत्ता स्यात् या अग्निये दहनशक्तिं ददाति या सत्ता आत्मानं गुणान्वितं करोति सा एव सत्ता प्रकृतिः अस्ति न तु यः गुणः प्रकृतेः प्रभावेन अभिव्यक्तः अस्ति प्रकृतिः इति कश्चन संस्कृतशब्दः अस्ति तस्य शब्दस्य व्युत्पत्तिः एवमस्ति। अस्ति प्र उपसर्गपूर्वा पूर्वकात् प्र धातोः तिन् प्रत्यय विहिते प्रकृतिः इति पदम् निष्पद्यते अर्थात् प्र योगे तिन् इति प्रकृतिः इति शब्दस्य अर्थः प्रक्रियते कार्यादिकम् अन्या इति प्रकृतेः द्वारा अणुचैतन्यं यदा गुणान्वितं भवति तदैव अनुचैतन्यस्य अस्तित्वं प्रतिष्ठितं भवति अर्थात् प्रकृतिः आत्मानं वा अणुचैतन्यं वा गुणान्वितं कृत्वा आत्मने द्यास्ति अस्तित्वस्य द्यास्ति। भावनां ददाति यत्किमपि का कर्म कर्तुम् आवश्यकी भवति आत्मानः गुणान्वयः इति कार्यं प्रकृतिः करोति इति कृत्वा स अद्वितीयशक्तिः अस्ति सा एव शक्ति शक्तिः या आत्मानं वितम करोति प्रकृतेः स्वस्य प्रभावेण आत्मनि भिन्नकार्याणि कर्तुं गुणान् ददाति प्रकृतिः एका शक्ति शक्तिः एकं विशिष्टं तत्त्वं परन्तु केचन प्रश्नाः उत्पद्यन्ते सा कस्य शक्तिः सात उभूता अकृते विषे इदान जानी प्रकृति यहाँ शक्तिण कर्थ कि यहाँ तर कम कौ प्रकृति ही। प्रकृति तो गुणस्वभा कि उदर उदाहरणा यहां दहनशक्ति अस्हशक्ति अग्नेपस्थितुण कौती तथा प्रकृति आत्मा गुणावित प्रक, कहती आत्मा आत्मा प्रकटीक कौती सा शक्ति प्रकृति आ, प्रकृति स्वयं एव शक्ति अस्दा आत्मा भवति तदा आत्मा प्रकटम होती तस् अस्तिव प्रकाश प्रकाशित भवति. Uh. प्रकृतेः शब्दस्य निष्पन्नं भवति प्र उपसर्ग प्र धातु तिन् प्रत्यय प्रकृति प्रक्रियते कार्यादिकम् अन्यास् येन कार्यप्रकटीकरणं भवति सा एव प्रकृतिः अनुचैतन्यं यः अस्ति तस्मिन् गुणाः सब सवेशा प्रकृति, प्रकृति द्वारा तर सिकरण प्रकृति प्रकृते कारणे व्यव त आवश आवश्यकता शक्ति प्रकृति ही सा शक्ति एव अस्माकं आ, कार्यं कर्तुं शक्नुमः करोति परन्तु या प्रकृतिः किम् अस्ति कथं कथम् आगच्छति कस्य शक्तिः अस्ति इति वयम् अग्रे पठामः समीचीनं भगिनी बहु सम्यक् अस्ति तर्हि अत्र एतावत् अस्माभिः किं ज्ञातम् इति चेत् अत्र जगति वस्तुद्वयमेव अस्ति एकमस्ति पुरुषः अन्यत् प्रकृतिः तर्हि अत्र यत्किमपि वस्तु जगति भवतु नाम तत्र तस्य कश्चन स्वभावः भवति यदा अग्निः इति स्वीकुर्म अग्नौ तत्र काचन शक्तिः भवति दहनशक्तिः भवति तर्हि शक्तिः भिन्ना अस्ति अग्निः भिन्ना अस्ति परन्तु द्वयोः पार्थक्यं न शक्यते पृथक् कर्तुं न शक्यते तर्हि तदहनशक्तिः केन दीयते इति चेत् प्रकृत्या दीयते एवम् अत्र पुरुषः यथा अग्निः अस्ति तत्र दहनशक्तिः अस्ति एवं पुरुषः अस्ति पुरुषे तत्र किमपि नास्ति परन्तु प्रकृति प्रकृतिः पुरुषे तत्र पुरुषं गुणान्वितं करोति पुरुषाय गुणाः प्रकृत्या दीयते गुणाः दीयन्ते प्रकृत्या पुरुषाय गुणाः दीयन्ते तदानीमेव पुरुषः गुणान्वितः भवति तदानीं पुरुषः अस्तित्वं प्राप्नोति इत्युक्ते केवलं पुरुषः अस्ति चेत् अस्तित्वस्य अनुभवः अपि न करोति अस्तित्वस्य अनुभवमपि न करोति सः पुरुषः सः हि ईस् जस्ट् देर् he he doesn't experience anything the purusha is just there he does he can't even realize his existence yada prakriti hi purushaya prakriti hi purushaya gunan gunan dadati tadanin purushaha gunanvitah bhavati saha astitvam praapnoti so when when prakriti gives the gunas to the purusha then he realizes his existence that is where the mahatattva comes into be right without the gunas of the prakriti Purusha doesn't even realize his existence, so he realizes his existence and he gets this mahat tattva. Because of the influence of one of the gunas of Prakriti, Purusha starts realizing himself. That is when the first component of the mind comes into being. So the mind is nothing but a modified consciousness. Mind is nothing but a modified consciousness that is due to the impact of the uh, Prakriti, right? सो प्रकृतिः इत्युक्ते किम् इति चेत् प्रकृतिः इत्युक्ते प्र उपसर्गपूर्वकः क्रीडा तुतः तिन् प्रत्ययः प्रकृतिः इति वयं वदामः प्रकृतिः इत्युक्ते प्रक्रियते कार्यादिकम् अनया इत्युक्ते यद् इत्युक्ते तादृश प्रकृतिः प्रकृति प्रकृतिद्वारा कस्यचित् वस्तुनः शक्तिः आयाति येन तद्वस्तु किमपि कार्यं कर्तुं शक्नोति यथा अग्निः अस्ति एदा प्रकृति शक्ति, शक्ति प्रकृति गुनं प्रापनोति। गुनं प्रापनोति। यदा प्रकृतिः अग्नये शक्ति प्रकृत्या अग्नये शक्ति दीयते तदानीम् अग्नौ दहनशक्ति हि आयाति तर्हि एवं प्रकृतिद्वारा अत्र जीवात्मा अणुचैतन्यं गुणात् गुणान्वितं भवति गुणं प्राप्नोति गुणं प्राप्नोति यदा गुणं प्राप्नोति तदानीं तत्र अणुचैतन्यं जीवात्मा अस्तित्वं प्राप्नोति अस्तित्वं तदानीमेव प्राप्नोति तर्हि तर्हि याव तर्हि आत्मा भिन्ना अस्ति आत्मा भिन्ना भिन्न भिन्नः अस्ति प्रकृतिः भिन्ना अस्ति प्रकृतिद्वारा एव किमपि कार्यं भवति जगति यत्किमपि कार्यम् इति वयं वदामः तदानीं तत्र प्रकृतिः अस्ति गुणः अस्ति इति वयम् अवगन्तुं शक्नुमः कार्यं कार्यम् इति वदामः चेत् तत्र प्रकृतिः प्रकृतिः नास्ति चेत् कार्यं किमपि न भवति अतः प्रकृतिः एकविशिष्ट एकं विशिष्टं तत्त्वमस्ति एकं विशिष्टं तत्त्वम् अस् अस्ति इदानीं तत्र कस्य शक्तिः कस्य शक्तिः इति अत्र प्रश्नः भवति तर्हि अन्यदपि अत्र स्पष्टीकर्तुम् इच्छामि अत्र जनरलीन् इन् इङ्ग्लिष् विस् ए नेचर् रैट् बट् प्रकृति अण्ड् नेचर् आर् टु डिफ्रेण्ट् थिङ्ग्स् ए नाट् द सेम् थिङ्ग् दि ट्रान्स्लेशन् आफ़् प्रकृति इन्टु इङ्ग्लिश् इस् नाट् नेचर् रैट् सो दट् इस् वन् थिङ्ग् सो इकृति इस् लैक् अ फोर्स् an entity an entity which whose duty is to qualify is to qualify so we talked about fire right we talked about fire agnihi <laughs> agnihi ketana gunaha santi agnihi kutaha eta etan gunan praapnoti itishet agnihi prakritih eva etan gunan praapnoti tase swabhavam praapnoti tahin prakriti hi prakriti hi kim karoti itishet vandanam dadati बन्द बन्दीकरोति प्रकृतिः बन्दीकरोति इड्जस् बैण्ड्स् एव्रिथिङ्ग् रैट् प्रकृतिः बन्धनं ददाति इज्जस् बैण्ड्स् प्रकृतेः ये यः कोऽपि गुणः भवतु केवलं तद् बन्धनमेव ददाति प्रकृतिः सीमां ददाति वस्तुनः क्षेत्रे वस्तुनः क्षेत्रे सीमां ददाति शुद्धपुरुषाय अपि गुणान् ददाति तर्हि प्रकृतिः गुणान्वितपुरुषं गुणान्वितपुरुषं शुद्धपुरुषात् पृथक् करोति सो शुद्धपुरुषः अस्ति निर्गुणः पुरुषः अस्ति यदा प्रकृतेः गुणाः शुद्धपुरुषं प्रभावितं करोति तदानीं शुद्धपुरुषः गुणान्वितः भवति यदा गुणान्वितः भवति तदानीमेव तत्र विकारः जायते तदानीमेव मनः इति एतत् सर्वम् आयाति तदानीम् अपि आयाति अस्तित्वम् आयाति सो आल् दीस् लिमिटेशन् केरेक्टरिस्टिक्स् and bindings all these bindings are attribute conferred by a force by this force known as prakriti right so vedavai jivatma etenaiva madama vastu tah jivatma is beyond existence right it is not limited by existence so existence when we talk about existence it always has a beginning and end asti to me yadavai madama tasya adi hi asti antaha api asti astitvam so shuddha purushah saha anantah asti anantah asti जीवात्मा अपि शुद्धपुरुषः एव जीवात्मनः अपि अधिः नास्ति अन्तः नास्ति तर्हि तस्य अस्तित्वम् इति भावः तदा एव भवति यदा प्रकृतेः गुणः तस्मिन् आयाति शुद्धपुरुषस्य अस्तित्व अस्तित्वस्य भावः तदा एव भवति यदा प्रकृतिद्वारा सः पुरुषः गुणान्वितः भवति अस्तित्व अस्तित्वं प्रकृतिद्वारा प्रदत्ता सीमा सीमा एव अस्ति it just creates that limitation existence is a limitation conferred upon uh, upon the purusha by prakriti so uh, when it has a sense of existence when the purusha has a sense of existence then we call it as the mahatattva and not jivatma so mahatattva is a modified form of the uh, modified form of consciousness it's the same purusha but when the prakriti influences the purusha then it gets this asittvam asittvasya bhavah we call it as mahatattva किञ्चित् अवगतं वा अहम् अवगतवती यत् भवती उक्तवती अत्र यत् दत्तमस्ति प्रकृतेः प्रकृतिसत्ता अस्ति येन यया ती पुरुषे पुरुषं गुणवत् करोति गुणवत् यदि भवति तदा पुरुषं पुरुषस्य परिणमति महत्तत्वे अहं तत्त्वे वा इति मनरचितम् इति भवति यदि प्रकृति तस्य प्रभावः पुरुषस्य उपरि न भवति तत्र किमपि परिणामं न भवति इति किन्तु अहं पूर्वं वेदान्तशास्त्रे इति किं यत् अहं तत्त्वमहत्तवम् इति तत् प्रकृतिः एव अस्ति अहं तत्त्वमतत्त्वं चित्तं पुरुषः तस्माद् भिन्न इति अहं जानामि पूर्वम् इति अतः प्रकृतिः प्रकृतिः अण्ड् पुरुषः आर् टु सैड्स् आफ़् sheet of paper you can never separate them you can't say this is only prakriti and that is not that is just anarishwara iti asti they um, there are so intertwined they're so intertwined you can't say something is only purusha or something is prakriti in everything there is purusha and prakriti right so even when we talk about the nirguna purusha there is prakriti there also but the prakriti is dormant Right. They are so intertwined, okay. mm -hmm. they are so intertwined, for only for understanding purposes we call them as two separate entities but they are actually essentially one entity, they are one, so you can, you can never say something is purely Prakriti and something is purely Purusha, wherever we see Purusha and Prakriti are always together, okay, they are like two sides of a coin, you cannot separate them, Shiva Shakti, Shiva Shakti hi sa Shiva say Shakti hi, okay, so shakti and shiva they are always together you can never separate them so yadi pi manaha tatraham tattvam sittam yadi kimam vimadamaha tatra prakriti to asti eva parantu purusha nasti bina vaksakamaha sampurna jagati sarvatra purusha eva asti putra pita adrisha salam nasti atra purushaka nasti putra pita adrisha salam nasti atra prakriti hi nasti halo ataha you cannot say that maybe just for understanding purposes in vedanta i don't know how they understand but तथा न वक्तुं शक्नुमः यत् अहं तत्त्वम् इत्युक्ते केवलं प्रकृतिः अस्ति पुरुषः न इति न पुरुषः गुणान्वितः पुरुषः एव तत्र महत्तत्त्वं यदा प्रकृतेः प्रभावः भवति तदानीं पुरुषः महत्तत्त्वरूपेण हि बिकम्स् अडिफैड् कान्शियस्नेस् अवगम्यते वा आम् इट् इस् लाजिकल् रैट् इट् इट् मेक्स् सेन्स् रैट् अद्य अहं द्वितीयभाग गीताध्याय तत्र पठितवती तत्र यत् अस्सत् अस्ति सत् तस्य पृष्ठतये एव यदि अस्त् वयं निष्कास्यमः सत्यं प्रकटीभवति इति अस्ति यद् जगत् इति मिथ्या अस्ति तस्य अपियरेन्स् अस्ति जगत केवलम् अपियरेन्स् अस्ति वयं मिथ्या इति सी दट् दट् द जगत् इस् नाट् देर् इस् इन् दैनल् स्टेट् इन् दैनल् स्टेट् आफ़् रियलैजेशन् देर् इस् नो जगत् रैट् बट् इनियलि वेन् विङ्ग् इन् दिस् वर्ल्ड् जगत् अस्ति वयं जगता सह व्यवहारं कुर्मः अत्र अस्मिन् स्तरे योग योग यदा योगरीत्या वयं चिन्तनं कुर्मः तर्हि तु जगत् अस्ति प्रथमतया यदा वयं साधकः साधकः साधकाः स्मः तदानीं तु जगत् अस्ति जगता सह व्यवहारः सर्वं भवति अस्माकं परन्तु यदा अन्ततो गत्वा यदा मुक्तिमोक्षः भवति तदानीं तत्र यदा ऐक्यं प्राप्यते परमात्मना सह ऐक्यं प्राप्यते तदानीं जगत् नास्ति इति वक्तुं शक्यते परन्तु इदानीं जगत् अस्ति वा इति चेत् अस्ति अस्ति यतोहि वयं तत्र भोजनं कुर्मः सर्वं कुर्मः खलु अतः अस्ति अतः वेदान्त यत्किमपि अधीते तस्य अत्र तुलनां मा करोतु तदानीं तत्र साङ्कर्यः एव भवति क्लेशः भवति तत्र किम् अधीते तत्र एव रक्षयतु अत्र किम् अधीते अत्र तथा एव अवगतु कम्पेर् कम्पेरेटिव् फिलासफि देन् इस् इट् इस् वेरि डिफिकल्ट् यु के नाट् जस्टिफै किं भगिनि it uh, on, is it, on a such and we see the changeless medium the change only appears so the changeless medium that brahma as you said yeah once you have ekam then only you will see the uh, uh brahma yeah. everywhere not as a device that's yeah. why it is called uh, what yeah. appears to be it is not actually is yeah right? that is only in the final state the final, the final state st what i'm saying is This, now is it it is the, that it has to be true to us but they were truly yeah. we do not see it that for yeah. us it just doesn't exist yeah yeah so then what happens is if if if now today you say jagat is not there then you know then you're leading a mithya life because you you're doing everything in the world you're eating you're doing everything and then you're saying jagat is not there then you're ignoring the world right you have responsibilities you have duties you, you're you then in that sense what you're saying by mouth you're saying that this jagat is mikya but still you're operating in the world you're doing everything in the world right so uh, so then it just becomes a mithya it just becomes uh, what you're doing becomes actually becomes like a donkey right so you're saying something and you're doing something so what in yoga what we say is that Jagat is there. Uh, there is Dvaitam. There is Dvaitam in this world. As long as we haven't reached that final state, there is Dvaitam. We have to operate with the world. We have to operate with people. We have to do everything. We have to eat. We have to live in this world. But we have to get Agra Gati. -hi. We have to get spiritual progress. For that, we engage in the Yoga Nishti Jeevanam. So then, at the end of the day, when you get the Mukti Moksha, then what you're saying is absolutely true that Jagat is not there at that point in time. There is Brahma Eva -sarva Sarvatra. So that is why what we do is we... Uh, even though we say that jagat is there jagat is there we, we deal with the world but we have this brahmacharya bhava right we see we we operate with everything in this world but we uh, superimpose the brahma bhava on everything right so uh, we do understand that everything is brahma so when we operate with something we don't want our mind to get degraded by the things of the world so that is why what we do is uh, that everything is brahma सर्वं सर्वं ब्रह्म एव खलु अतः यत्किमपि वयं पश्यामः तत्र सर्वत्र ब्रह्मभावम् अध्या अध्याहार्यं ब्रह्मभावस्य अध्याहार अध्याहारः कर्तव्यः एवं यदा कुर्मः तदानीं द मैण्ड् विल् नाट् गेट् डीग्रेडेड् द मैण्ड् विल् रिमैन् एलिवेटेड् बिकास् यु सी एव्रिथिङ्ग् इन् दिस् वर्ल्ड् एस् एस् एन् मेनिफेस्टेशन् आफ़् द ब्रह्म एव्रिथिङ्ग् इस् द म्यानिफेस्टेशन् आफ़् ब्रह्म देन् वाट् हेपन्स् इस् दट् your mind does not get crucified it does not get uh, degraded because see we operate with all the crude things of the world money and so many things right so if you get deeply attached to all of those things then the mind gets keep getting degraded so we, we we keep we kept saying that you know the mind doesn't have a shape of its own right the mind doesn't have a shape of its own whatever it thinks it becomes like that so if you think about money then you become you become uh, crucified like money if you think about uh, you know food then you get crucified by like food so then we don't want the mind to get degraded if the mind gets degraded then you will have no interest in spirituality right if your mind becomes so degraded then there is no way you're going to get interested in spirituality so we want to elevate the mind right manakah vardanam a apekshitam asti so in order to elevate the mind what you do is that you do the brahma hava on everything right so okay i am i'm talking with you i'm talking with you you're a brahma brahma roopi sarla bagini i'm talking to you that kind of bhava when you are able to get in everything that you deal with then your mind remains elevated at all the all at all point in time you are not creating you samskaras because you the poshana who is doing the action is also brahma the action is also brahma the done is also brahma everything is brahma when that kind of a bhava you continuously keep getting in your mind right and you have stabilized in that brahma bhava then brahmaiva tena gantavyam then that person becomes brahma right then there is no world there is nothing at that point in time okay so isn't it uh, very beautiful this concept yeah very mm -hmm. yeah. yeah okay okay but mean should we move for hoard yeah okay next one bagni you take it okay prakriti hi purushasya ekam siddhanta पुरुषः स्वसिद्धान्तस्य कारणेन एव प्रकृत्या प्रभावितः गुणान्वितः भवति यतः प्रकृतिः पुरुषस्य सिद्धान्तः सा पुरुषान्तर्गता एव वस्तुतः सा सर्वदा पुरुषान्तर्गता वर्तते यथा वह्निः धनशक्तिः कदापि अग्नितः पृथक् कर्तुं न ता ता शक्यते तथा आत्मा तस्य प्रकृतिश्च कदापि परस्परम् पृथक् कर्तुं न शक्यते यत्किमपि वस्तु स्वसिद्धान्तस्य बलेन वा लक्षणं गुणं वा प्राप्नोति किन्तु तस्मात् वस्तुनः स्वसिद्धान्तं वा बलं वा पृथक् कृतम् चेत् तत् न अवतिष्ठते यथा वस्तु अपि च तस्य सिद्धान्तः बलं वा सर्वदा अविच्छिन्नौ स्तः तथा प्रकृतिपुरुषौ च अविच्छिन्नौ स्तः प्रकृतिपुरुषौ द्वौ अपि अवच्छिन्नौ यथा कागदपत्रस्य पक्षद्वयम् एव प्रकृतेः एवमेव कार्यम् नैरन्तर्येण भिन्नरूपे भिन्नरूपाणाम् निर्माणम् चैतन्यस्य उपरि तस्या गुणप्रभावेण अतः यथा भवती इदानीम् बोधितवती प्रकृति पुरुषस्य एकसिद्धान्तः एक अस्ति या प्रकृति पुरुष स्वयं निर्गुणम् अस्ति किमपि न कर्तुं शक्नोति यदि प्रकृतस्य प्रकृतेः प्रभावः भवति पुरुषस्य उपरि तर्हि तदा एव पुरुषस्वसिद्धान्तस्य कारणे एव प्रकृत्या प्रभावितः भव प्रकृत्या प्रभावितः भवति पुरुषः अपि गुणान्वितः भवति यदि प्रकृतिप्रभावः न भवति पुरुष उपरि तत् पुरुषनिर्गुणं तिष्ठति एव इदानीं प्रकृतिप्रभावेन गुणान्वितः भवति यदा प्रकृतिः पुरुषस्य सिद्धान्त सा पुरुषान् अन्तर्गता एव स्या यदि प्रकृतिपुरुषस्य सिद्धान्त अस्ति द्वयोः पुरुष प्रकृत्योः द्वयोः अन्तर्भूतः भवति इण्टर्चेञ्ज् भवति भवितुं शक्नोति द्वयोः वस्तुतः सा सर्वदा पुरुषा अन्तर्गता वर्तते तो यथा वयं जानीमः म्याग्नेट् अस्ति तो म्याग्नेटिक् यत् आकर्षणशक्तिः अस्ति तत् म्याग्नेट् एव भवति म्याग्नेट् विहाय न भवति तथैव पुरुषप्रकृतिः अपि एक एकस्मिन् अन्तर्गत अस्ति पुरुष पुरुषप्रकृतेः पुरुषस्य शक्तिः प्रकृतिः अस्ति प्रकृतेः प्रकृते पुरुष तस्य सिद्धान्तः भवति इति अस्ति वहने धनशक्तिः भवति वने धनशक्तिः आगच्छति तत् अपि एका प्रकृतिः अस्ति तथा तत् तत शक्तिः अग्नेः अग्नेः पृथक् न कर्तुं शक्यते तथापि तथैव प्रकृति अपि पुरुश, प्रकृ पृ प्र, पृथक् न कर्तुं शक्नुमः इति अस्ति यत्कपि वस्तु स्वसि स्वसिद्धान्तस्य बलेन वा शक्त्या लक्षणं पुनः वा तस्मात् वस्तुन स्वसिद्धान्त वा बलं वा पृथक्तं चेत् तत् वस्तु तो यथा इदानीं वयं जानीमः प्रकृति वा म्याग्नेट् म्याग्नेटिज़म् वा अग्निधनशक्ति इति ये अस्ति यथा वयं मेटर् एण्ड् पोटेन्शियल् एनर्जि इति वयं वदा केनेटिक् एनर्जि वदामः द्वयोः पृथक् कर्तुं न शक्नुमः इति अस्ति अत्र इति सिद्धान्तः भवति यथा वस्तु अपि तस्य सिद्धान्त सिद्धान्त स्वसिद्धान्त वा बलं पृथक् कृतं चेत् तत् वस्तु न अवतिष्ठते यदि वयं प्रकृति भिन्नं कुर्मः अपि पुरुषं भिन्नं कर्म कुर्मः वा दहनशक्ति निष्काश्या केवलम् अग्निः इति द्वयोः पृथक् पृथक् स्थानं ते न स्थाप्य स्थापितुं शक्नुमः अस्ति यथा वस्तु तस्य सिद्धान्तबलं सर्वदा अवच्छिन्नौ तथा प्रकृति अन्तिमद्वये वाक्यानि मया न अवगतं प्राप प्रकृतिपुरुषौ तु द्वौ अपि अविच्छिन्नौ विच्छिन्नः विच्छेदः नास्ति यु केन् सपरेट् अविच्छिन्नौ यथा कागदपत्रस्य पक्षद्वयमिव प्रकृतिः एकमेव कार्यं नैरन्त्यरण्य भिन्नरूपाणां निर्माणं क्रीप् क्रियेटिङ्ग् न्यू फार्म्स् चैतन्यस्य उपरि तस्य प्रभावेन गुणप्रभावेन ड्यू टु द इन्फ्लुएन्स् आफ़् अर् गुणान् द पुरुष हि की क्रियटिङ्ग् डिफ्रेण्ट् डिफ्रेण्ट् डिफ्रेण्ट् फार्म्स् रैट् आल् दीस् डिफ्रेण्ट् नेम्स् अण्ड् फार्म्स् दटि सी इन् द वर्ल्ड् are due to the influence of Prakriti Prakriti, on Purusha. But, Purusha, ड्यू टु द इन्फ्लुएन्स् आफ् प्रकृति आन् पुरुष किन्तु पुरुषस्य चैतन्य शक्ति प्रभावे न, प्रकृति अपि गुणप्रभावं कर्तुं शक्नोति साधु इति पुरुष पुरुषः नास्ति चेत् किमपि ha कर्तुं asti, अपेक्षितः अस्ति चैतन्यम् अपेक्षितम् अस्ति चैतन्यम् अपेक्षितमस्ति परन्तु केवलं प्रकृतेः विषये वयं चिन्तनं कुर्मः चेत् Prakriti he karyam kim iti चेत् पुरुषस्य उपरि गुणगुणप्रभावेन भिन्नरूपाणि सा निर्म, निर्मा निर्माति भिन्नरूपाणि भा, निर्मा निर्मान्ति अस्ति भगिनी यथा वयं वदामः प्रकृतित्रिगुणात्मका यथा सतोगुण रजोगुणतमोगुण भवति अस्ति अग्रे आयसि गुणस्य विषये अग्रे आय इदानीं वदामः प्र पुरुषे पुरुषं प्रभावे गुणावित् करो गुणान्वित् करोति प्रकृतेः प्रभावेन सत्त्वगुणरजोगुणतमोगुणः अस्ति तद् इति प्रकृतौ प्रकृ गुणाः सन्ति सत्त्वगुणरजोगुणतमोगुणः इति त्रयः गुणाः अपि प्रकृत्यामेव प्रकृत्यामेव एव सन्ति तेषां यदा पुरुषस्य उपरि पुरुषः तु निर्गुणः अस्ति खलु पुरुषः निर्गुणः अस्ति यदा प्रकृतेः त्रयः गुणाः पुरुषस्य उपरि यदा प्रकृतेः गुणाः पुरुषं गुणान्वितं करोति अथवा पुरुषः प्रभावितः भवति तदानीं तत्र सगुणब्रह्म आयाति तदानीं सगुणब्रह्म तत्र सगुणगुणेन सह गुणेन सह पुरुषः सगुण हितः पुरुषः इति सगुणब्रह्म कदा आयाति इति चेत् प्रकृतेः प्रभावः यदा भवति पुरुषस्य उपरि तदानीं सगुणब्रह्म तमिलीश्वरः यत्किमपि वयं वदामः यत्किमपि वयं वदामः तदेव अत्र अस्ति इति कृत्वा तत्र द्वयोः पार्थक्यं तु न शक्यते इत्युक्ते पुरुषस्य सिद्धान्तः अस्ति जस्ट् लैक् वि केनाट् सपरेट् दहनशक्ति फ्रोम् द फयर् इण्टर्ट्वैन्ड् right even though we can understand that there are two things like there is fire and there is the hana shakti right we can understand that but can we separate the two we cannot dvaya parthakyam kadapi nasakyate evam purusha sye siddhanta asti prakritihi prakritihi balam asti advitiya advityam balam purusha sye balam asti tatra prakritihe guna trayam vartate sattvam rajas sattva gunaha rajo gunaha tamo gunaha eti trayah gunaha vartante te gunaha purusham प्रभावितं कुर्वन्ति तेन पुरुषः योग्यतां प्राप्नोति सृष्टिं कर्तुं योग्यतां प्राप्नोति पुरुषः तदानीमेव सृष्टिं सः पुरुष, यदा स्वस्य अस्तित्वस्य ज्ञानं तदा भवति पुरुषे प्रकृतेः गुणाः यदा गुणा गुणानां प्रभावः पुरुषस्य उपरि यदा भवति तदानीं पुरुषः स्वस्य अस्तित्वस्य ज्ञानं प्राप्नोति तदानीं सः सृष्टिमपि करोति डूइङ्ग् दर्क् हि गेट्स् दण्डिटार्ट्स् डूङ्ग् दर्ट् वर्क् हि डस् द सृष्टि हि क्रियेट् दिस् वर्ल्ड् देन् हि सीस् दिस् होल् वर्ल्ड् इन् हिस् चिता देट् इस् सो ब्यूटिफुल् how he seeing the whole world in his chitta that is so nice it's nicely explained you, you have to read that in the following it's right? so okay so atra atra kim astiti cet jivatma prakriti cha pratak kartum kadaapi na sakyate right jivatma and prakriti kadaapi pratak kartum na sakyate so what we are trying to aim uh, is that we, we we have this mind we are, we are trying to make this mind we are trying to get rid of this mind we are trying to make the mind dissolve into the purusha so that the purusha becomes nirguna right if he is a gunanvita purusha we want him to be nirguna purusha we don't want we don't want the impact of the gunas on us on the purusha right so from the saguna state we want to go to the nirguna nirguna state that is what is the whole aim of this yoganishtha jeevanam right eto hitayo abina avinabha bava sambandha asti prakriti purushayoho pratakartuna sakyate avinabava sambandha asti Tarhi, uh, can we completely get rid of Prakriti? No, we cannot get rid of Prakriti. Prakriti purusha ha prithak karta ha prithak karta ha prithak karta ha kada pina shakyate. Tarhi, so just like you cannot have the Shabda without Artha, right? You cannot have the sound and the meaning. You cannot separate the sound and the meaning. They have an inseparable relationship in the mundane world, right? You cannot have a Shabda without Artha. सिमिलर्ली प्रकृति अण्ड् पुरुष शिव अण्ड् शक्ति केन् नेवर् बि सपरेटेड् दि प्रकृति गिव्ज़् पुरुषाय गुणं ददाति पुरुषस्य भिन्नरूपेण प्रकटीकरणं कर्तुं शक्नोति प्रकृतिद्वारा एव पुरुषः भिन्नरूपेण प्रकटीकृतं भवति अग्निप्रसङ्गे तस्य दहन अग्नेः कृते दहनशक्तिं ददाति प्रकृतिः तथा तत्र प्रकृतिः पुरुषस्य उपरि प्रभावम् अपि करोति purusha and prakriti are inseparable and the uh, therefore the purusha always possesses the guna gunas as long as prakriti is present and prakriti is always present right so chaitanya uh, se upari prabhavam mm krutva bhinna rupanam nirmanam karoti prakritihi prakritehe drishtya vai pashyama hatet tatra purushah bhinna rupani purushah bhinna rupani sikaroti prakritehe prabhavena hmm uh, प्रकृतेः प्रभावे तदानीमेव प्रकृतेः प्रभावः यदा भवति तदानीमेव महत्तत्वं तदानीमेव चित्तम् अहं तत्त्वं सर्वं तदानीमेव भवति यदि प्रकृतिः प्रकृतेः प्रभावः नास्ति तदानीम् सर्वं किमपि नास्ति तदानीं केवलं शुद्धपुरुषः एव अस्ति ओके किञ्चित् अग्रे गच्छामः अस्तु तत्र भगिनी चरिता भगिनि आत्मा साक्षीसत्ता वर्तते आत्मा स्वस्य अस्तित्वं तदैव अभिजानाति यदा अहम् अस्मि इति प्रकटीकर्तुं सः गुणान्वयं प्राप्नोति यः आत्मनः अस्तित्वं स्थापयति पुरुषस्य गुणान्वयेन सः प्रकृतिसिद्धान्तः सत्त्वगुणः इत्युच्यते सत्त्वगुणप्रभावात् मनसः यः अंशः अहम् अस्मि इति भावनां जनयितुं श्रेष्ठः भवति तस्य अंशस्य नाम महत्तत्त्वम् अथवा बुद्धितत्वम् इति अर्थात् सत्त्वगुणस्य प्रभावेन हि अनुचैतन्यं स्वस्य अन्तरङ्गे एव बुद्धितत्वस्य वा महत्तत्त्वस्य सृष्टिं करोति सत्त्वगुणप्रभावेण आत्मा स्वं महत्तत्त्वेन बुद्धितत्वेन वा प्रकटी उच्य से चे इ सम्य अग्रेविनी अव तथितिया आमा यदा प्रकृते संलग्ना प्रकृति तो सदा आत्मा सह संल्ना अस्थ किंतु यदा प्रकृति आत्मा तर उपस्थित गुणा वो एव आवस्थित प्रति जागरूक तर प्रकटीकरण प्रकृति तो परमात्मा पुरुषस्य सिद्धान्त एव अस्ति प्रकृति पुरुषं पृथक्करणं सम्भवं न भवति किन्तु अहम् अस्मि इति भावः प्रकृ प्रकृतिः एव पुरुषं ददाति पुरुषाय ददाति य यदा पुरुषः प्रकृतेः सह संलग्नः भवति तस्य उपस्थित्यां आ, आ, आ, आ, अनुभवति तदा अहम् अस्मि इति भावा जन्यति अहम् अस्मि इति भावा एव महत्तत्त्वं बुद्धितत्वम् इति उच्यते सः महत्तत्त्वभावः पुरुषं पुरुषाय प्रकृति एव ददाति तस् महत्तत्त्वभावः एव तत्त्वगुण प्रभावात एव पुरुषाय पुरुषे अहम् अस्मि इति भावना भवति तस्य अंशः एव सत्त्वगुण इति उच्यते एवं च सा एव बुद्धि बुद्धितत्त्व इति उच्यते समीचीनं भगिनी सम्यक् तर्हि अत्र स्पष्टतया लिखितमस्ति तत्र प्रकृतेः सिद्धान्तस्य विषये अत्र दत्तमस्ति प्रकृतेः गुणाः प्रकृतेः गुणाः प्रकृतेः त्रयः गुणाः सन्ति सत्त्वगुणः रजोगुणः तमोगुणः इति त्रयः गुणाः सन्ति तत्र निर्गुणः पुरुषः तस्य गुणाः न सन्ति गुणरहितः अस्ति पुरुषः यदा प्रकृतेः प्रकृतेः गुणाः पुरुषं प्रभावितं करोति तदानीं पुरुषस्य भिन्नाकारः ति तर्हि यदा शुद्धपुरुषाय प्रकृतिः सत्त्वगुणं ददाति तदानीं तस्य प्रभावेन पुरुषः महत्तत्त्वरूपेण प्रकटीकरोति तर्हि तदानीमेव तभिन्नरूपं प्राप्नोति तदानीं सः तत्र महत्तत्त्वरूपेण महत्तत्वरूपेण प्रकटीकरोति तर्हि तस्य स्वस्य अस्तित्वस्य भावः तदानीमेव भवति तावत्पर्यन्तं पुरुषः स्वस्य अस्तित्वस्य भावः अपि तस्मिन् नास्ति निर्गुणपुरुषे स्वस्य अस्तित्वस्य भावः अपि नासीत् एवमेव अस्ति सः हि जस्ट् लैक् अ लाग् देर् हि नाट् डूइ एनिथिङ्ग् हि जस्ट् लैक् द हि डजन् टु नो हि एक्सिस्ट् हिस् लैक् अटोन् देर् इट् डजन् नो एनिथिङ्ग् हि जस् देर् एण्ड् वेन् दि इन्फ्लुएन्स् आफ् प्रकृति आन् पुरुष द सत्त्वगुण आफ् प्रकृति इन्फ्लुएन्स् इस् द पुरुष then he starts realizing his existence he starts knowing i'm i'm there right that is what is the mahatattva he he gets to know he gets to realizes existence because of the guna of the uh, prakriti tatvat paryantam tasya stitvasy jnanam nasti satva guna bahu sukshma, sukshma, so, he, uh, sukshma gunaha, gunaha. asti sukshma guna asti prakritehe sukshmatamah gunah tattva gunah tadadesh gunaasya prabhaveena eva purushah svasya astitvasy uh, तस्य स्वस्य अस्तित्वस्य ज्ञानं भवति ओके सो okay. so, यदा प्रकृतेः सत्त्वगुणं यदा प्रकृतेः सत्त्वगुण सत्त्वगुणः पुरुषं प्रभावितं करोति तदानीं तत्र तत्र त, इदानीं पुरुषः बन्धने आग पुरुष पुरुषः बन्धने आगतः बन्धने आगतः सत्त्वगुणमपि बन्धनमेव रैट् यद्यपि वयं वदामः सत्त्वगुणः बहु सम्यक् अस्ति एतद् वदामः तदानी सत्त्वगुणः अपि बन्धनमेव रजोगुणः अपि बन्धनं समोगुणः अपि बन्धनं सत्त्वगुणः अपि बन्धनं एव मीन् हि गेट्स् क्वालिफैड् बै द सत्त्वगुण दट् इस् आल्सो अ लिमिटेषन् जस्ट् नोयिङ्ग् युर् एक्सिस्टेन्स् इस् आल्सो लिमिटेशन् रैट् सो तमडि हूस् अयलैस् पर्सन् हि विल् नाट् विन् नो हिस् एक्सिस्टेन्स् यु विल् नाट् नो एनिथिङ्ग् वि पर्सन् हूस् अयलैस् पर्सन् देन् anything that is happening around him it's nothing for him it's like he's just there he's just he's not becoming into anything he's just being what he is right that is what is the brahma bhava right so when you get the sattva guna then that is also bandhana that is also creating a limitation now you are knowing your existence right that is also kind of a limitation right the quality of existence which uh, the purusha did not have before he got that quality of existence because of the prakriti okay so uh अग्रिमपरिच्छेदः दीर्घः अस्ति समयः अस्ति वा कर्तुं शक्नुमः वा नो चेत् अत्र स्थगनं कुर्मः वा यस्य इच्छा भगिनी अस्तु अस्तु तर्हि अत्र अग्रिमपरिच्छेदं भवती पठतु कृत्वा प्रत्येकं कर्म अस्ति परिकल्पयति मम अस्तित्वस्य अभावे अहं द्रष्टुं न शक्नोमि अत्रापि दृश्यते यत् अहम् इत्यस्य द्वे भिन्ने कार्ये अथवा आलोकने स्तः प्रथमः अस्ति साक्षिसता अथवा चैतन्यं यत् स्वस्य अस्तित्वस्य अथवा अभिज्ञानार्थम् अहम् अस्मि इति भावं प्राप्नोति तदैव अहम् इदानीं दर्शनाकार्यं करोति अहम् अस्मि इत्यस्य अहम् एव बुद्धि तत्त्वम् अस्ति यत् अणुचैतन्यस्य अस्ति तत्त्वस्ति तत्त्वस्थापनकार्यम् अतिरिच्य कस्यचित् दर्शनसमये अस्तित्वस्थापनकार्यम् अतिरिच्य कस्यचित् दर्शनसमये दर्शनकार्यं गृह्णाति यदा अणुचैतन्यं प्रकृत्या प्रभावितं तदा तत् स्वं बुद्धितत्वरूपेण प्रकटयति तद्वत् कर्मणि कर्तुम् अतिरिक्तं सामर्थ्यम् अपि बुद्धितत्वे प्रकृतेः प्रभावात् एव भवति बुद्धितत्वे प्रकृतिः अपि उपस्थिता भवति यतोहि बुद्धितत्वं चैतन्यस्य एव प्रकटीकरणम् अस्ति यत्र कुत्रापि अणुचैतन्यम् येन केनचित् रूपेण भवति तत्र सर्वत्र प्रकृत्या सह एव भवति प्रकृतेः सिद्धान्त वा गुण या यः तत्वाय गुणं वा सामर्थ्यं ददाति सः गुण रजोगुण इति उच्यते एवम् बुद्धितत्वं यदा प्रकृत्या प्रभावितं भवति तदा तत् द्विप्रकारकं कार्यं प्रदर्शयति यत् रजोगुणस्य प्रभावात् कर्मं कर्तुं सामर्थ्यं गुणं वा प्राप्यते तत् अहं तत्त्वम् इति ज्ञायते अर्थात् यदा प्रकृते रजोगुणेन बुद्धितत्वं प्रभावितं भवति तदा तत् अहं तत्त्वरूपेण प्रकटयति पूर्वं वयं दृष्टवन्त प्रकृतेः सत्त्वगुणस्य प्रभावेन पुरुषस्य निर्गुणम् अस्ति पुरुष निर्गुणं तिष्ठति सत्वगुणस्य प्रकृत्याः सत्वगुणप्रभावेन प्रभावित् भवति पुरुष <laughs> महत्तत्त्वे परिणमति तत्र अहम् अस्मि इति अहं भावः आगच्छति इदानीं यदि महत्तत्त्वम् अहं भावः अस्ति इदानीं तस्य मनसि अस्ति अहम् अस्मि इति तस्य विद्यमानत्वमिति आगच्छति चै चैतन्यम् अस्ति तत् प्रकृतेः सत्ता या अस्ति तस्य कारणेन एव भवति तस्य अहं भावस्य प्रतीतिः यदि या प्रतीति आसीत् तद् अनन्तरम् कार्यं भवति तस्य बुद्धितत्वे तत् अनुचैतन्यस्य बुद्धितत्त्वम् इति परिणमति तदनन्तरम् अहं कार्यम् रजोगुणस्य प्रभावेन आगच्छति तत्र यथा पूर्वं दृष्टवन्तः अहङ्कार इति भाव अहङ्कारभावः इति आगच्छति तत्र तो अत्र इति दत्तमस्ति प्रकृति प्रकृतेः सत्ताः प्रभाव अणुचैतन्यं या पुरुषं या ब्रह्मकिमपि वयं वदामः तत् तस् तस्मिन् उपरि भवति पुरुषस्य चैतन्यस्य कारणेन प्रकृतिः अपि प्रभावं कर्तुं शक्नोति पुरुषे इति अस्ति तो परस्परं प्रभाव प्रभावित भवतु भवतः द्वयोः प्र पुरुषप्रकृत्योः तो यत् चैतन्यप्रकटीकरणं भवति यत् अस्ति अहं तत्त्व तत् अहं तत्त्वत् अस्ति रजोगुणकारणेन तस्य कार्यं कार्यकरणस्य कर, शक्ति आगच्छति तत्र तत् प्रकटिं भवति आम समीचीनं भगिनि आं समीचीनं भगिनी आम् आम इत्युक्ते तदेव स्व एव विचारः सम्यक्तया उक्तवती तर्हि अत्र किमस्ति इति चेत् Tastra, तत्र यत्किमपि कार्यं वयं जगती कुर्मः तदानीम् अहम् अस्मि इति भावः ता यावत्पर्यन्तं नास्ति तदानीं कार्यं कर्तुं न शक्नोमि खलु इदानीं यदा ऐ एम् अन्कान्शियस् अहम् अस्मि इति भावः मम मनसि नास्ति तदानीं तत्र अहं किमपि कर्तुं न शक्नोमि खलु अस्तित्वस्य भावः भवेत् तदानीं तत्र तदानीमेव वयं किमपि कर्तुं शक्नुमः अस्तित्वस्य भावः यदा भवति तत्तु सत्त्वगुणस्य प्रभावेन पुरुषस्य उपरि तदानीं महत्तत्वम् आयाति तदानीम् अस्तित्वस्य भावः आयाति यदा तदानीम् अस्तित्वस्य भावः आयाति चेत् तदनन्तरम् अहं यदा कार्यं कर्तुम् इच्छामि तदानीं तत्र अहं तत्त्वम् अपेक्षितम् अस्ति अहं तत्त्वं नास्ति चेत् अहं किमपि कर्तुं न शक्नोमि केवलम् अस्तित्वस्य भावः एव अस्ति परन्तु अहं तत्त्वं नास्ति अहङ्कारः नास्ति चेत् अहं कथं कर्तुं शक्नोमि तदर्थं तत्र रजो प्रकृतेः रजोगुणस्य प्रभावेन महत्तत्त्वस्य उपरि रजोगुणस्य प्रभावः यदा भवति तदानीं तत्र अहं तत्वम् आयाति यदा अहं तत्त्वम् आयाति तदानीं तत्र अहं किमपि कर्तुं शक्नोमि रैट् right? तत्र अहं तत्त्वं महत्तत्त्वम् आर् बोत् द फङ्क्षनल् फार्म्स् आफ़् द सेम् ओरिजिनल् शुद्ध ऐ आर् द आत्मा रैट् दे आर् द मोडिफैड् फार्म् आफ़् द सेम् शुद्ध शुद्धपुरुषः रैट् सो महत्तत्त्वस्य एकः एव गुणः अस्ति सत्त्वगुणः महत्तत्त्वे एकः एव गुणः अस्ति सत्त्वगुणः अहं तत्त्वे गुणद्वयं वर्तते सत्त्वगुणः अपि अस्ति रजोगुणः अपि अस्ति यतोहि महत्तत्त्वस्य उपरि एव रजोगुणस्य प्रभावः अस्ति खलु अतः यदा अहं तत्त्वम् इति वदामः तत्र सत्त्वगुणः अपि अस्ति रजोगुणः अपि अस्ति तर्हि अहङ्कार हेज़् अ सत्त्वगुण वित् इन् इट् वित् इट् एण्ड् आल्सो हेज़् अ रजोगुण बट् द रजोगुण इस् डोमिनेटिङ्ग् इन् द डामिनेन्स् आफ़् रजोगुण गिव्स् दि अहङ्कार द न्यू क्वालिटि आफ़् बीङ्ग् दि डुवर् ऐ तदर्थमेव किमपि कार्यं कर्तुं तत्र रजोगुणः अपेक्षितः इति वयं वदामः खलु तत्र अहङ्कारे रजोगुणस्य प्राधान्यं वर्तते इति कृत्वा एव अहङ्कारः किमपि कर्तुं शक्नोति महा महात्त्वे केवलं सत्त्वगुणः अस्ति अतः इट् इस् अ प्योर् फीलिङ्ग् आफ़् एक्सिस्टेन्स् विच् इस् तत्त्वक्सि डजन्ट् डु एनिथिङ्ग् द महातत्त्व विल् नाट् डू एनिथिङ्ग् अहं तत्त्व इस् द वन् दट् डस् आल् दि एक्शन्स् इतः अग्रे चित्तं कथम् आयाति इति अग्रिमसप्ताहे वयं पठिष्यामः अत्र स्नगनं कुर्मः कोऽपि प्रश्नः वा न भगिनि स्पष्टमस्ति धन्यवादः अस्तु सम्यक् अस्तु समीचीनं तर्हि स्वारस्यमस्ति खलु रुचिकरमस्ति खलु सुन्दरमस्ति अस्तु समीचीनं धन्यवादः it's very beautiful and so logical it's logical you yeah i just stop the recording for a minute up to dhanyawad ha namaskar